श्री गणेशाय नमः श्रीगौरी शङ्कराभ्यां नमः अतः श्री शिवमहापुराणे विद्येश्वरसंहितायां तृतीयोऽध्यायः साध्य साधन विचारः व्यास उवाच इत्याकर्णव चोचस्ते परमचय वेदासार सर्वस्वं पुराणं श्रावय अद्भुतम् इति श्रुत्वा मुनीनां स वचनं सुप्रचितः संस्परं शङ्करं सूतः प्रोवाच मुनिसतमान् सूत उवाच शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवं नमयम् पुराणे प्रवणं चैवं पुराणं वेदसारजम् यत्र गीतम् त्रिगम् प्रीत्या भक्तिज्ञानविरागकम् वेदान्तवेद्यं तद्वत्तु विशेषेण प्रवर्णितम् शृण्वन्तु ऋषिः सर्वे पुराणं वेदसारजम् पुराकाले न महता कल्पेति ते यस्मिन् उपस्थिते कल्पे, कल्पे प्रवृत्ते सृष्टिकर्मणि मुनीनां षट् कुलीनानां क्रुवताम् इतरेतरम् इदं परमितं येदि विवाद सुमहानेभिः जग्मो विधातारम् ब्रह्माणं प्रष्टुमा वाग्भी वाग्भिनय गर्भाभिः सर्वे प्राञ्जलयोर्ब्रुवन् तं हि सर्वजगद्धातः सर्वकारणकारणम् सप्तमान् सर्वतत्त्वेभ्यः पुराण परतपरः ब्रह्मोवाच य निवर्तं से अप्राप्य मनसा सह यस्मा विष्णु रुद्रेन्द्र पूर्वकूते महदेव सर्वज्ञो जगदीशर है अयम तो पर्याभ्य दृश्य से न्यचि रुद्र हरिहरश्च तथान्ये च सुरेश्वरः भक्त्याय परमया तस्य नित्यं दर्शनकाङ्क्षिण बहु नात्र किमुक्तेन शिवे भक्त्या विमुच्यते प्रासादा देवता भक्ति प्रसादो भक्तिसम्भवः यथेहङ्कुरतो बीजं बीजतो वा यथाङ्कुर तस्मादीश प्रसादार्थं यूयं गत्वा भुवन् दीर्घसत्रम् समाकृध्वम् यूयं वच्रकम् अमुष्यैव ध्वरे तस्य शिवस्यैव प्रसादतः वेदविद्यासारम् जायते साध्यसादनं साधनम् मुनय ऊच अथ किं परमं साध्यम् किं वा तत्साधनम् परम् साधकीदृश तत्र तदिदम् ब्रूहि सत्त्वतः ब्रह्मोवाच साधन तस्वीर साध्य, कर्म करेद महाफलम परमेश पद प्राप्ति स लोक्यादि क्रम तकुसारेण सर्वेश परम फलम तत्साधनं बहुविधम् साक्षादीशेन बोधितम् संक्षिप्य तत्र वस्तारम् साधनं प्रब्रवीम्यहम् श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा मनसा मननं तस्य महासाधनमुच्यते श्रोतव्यकीर्तितव्यश्च मन्तव्यश्च महेश्वर इति श्रुतिप्रमाणं न साधने नामुना परं साध्यं व्रजत सर्वात् साधनैकपरायणः प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोक प्रवर्तते हि सर्वत्र ज्ञात्वा श्रोत्रेण चेच्छते तस्मात् श्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुध तथा संसाधये दन्य कीर्तनं मननं सुधे क्रमान्मन पर्यन्ते साधनेऽस्मिन् सुसाधिते शिवयोगो भवेत् तेन सा लोक्यादि क्रमाञ्च नै सर्वाङ्गात् सर्वानन्द अभ्यासात् प्रेषद्वये पश्चाद् अद्यत मङ्गलम् इति श्री शिवमहापुराणे विद्येश्वरसंहितायां तृतीय ध्यागौरी शंकरापणमस्तु